अथ अष्टपञ्चाशत्तमोऽध्यायः सौ तिरुवाच इदमत्यद्भुतं चान्यत् आस्ति कस्यानुशुश्रुमा तथा वरैश्चन्द्यमाने राज्ञा पारिक्षिते न हि इन्द्रहस्ताच्युतो नागः ख ततश्चिन्ता परो राजा बभूवजनमे जयः भूयमाने भृशं दीप्ते विधिवद्वसुरेतसी न स्म तक्षको भयपीडितः शौनक उवाच किं सूततेषां विप्राणां मन्त्रग्रामो मनीषिणाम् न प्रत्यभात्तदाग्नौ यत् सपपातनतक्षकः सौतिरुवाच तमिन्द्रहस्ताद्वित्रस्तं विसंज्ञम्पन्नगोत्तमम् आस्तीकस्तिष्ठतिष्ठेति वाचस्तिस्रोऽभ्युदैरयत् वितस्थे सोऽन्तरिक्षे हृदयेन विदूयत यथा तिष्ठति वै कश्चित् खं च गां चान्तरा नरः ततो राजाब्रवीद्वाक्यं सदस्यैश्चोदितो भृशं काममेतद्भवत्त्वेवं यथास्ति कस्य भाषितं समाप्यतामिदं कर्म पन्नगा सन्त्वनामयाः प्रीयतामयमस्तीकः सत्यं सुतवचोस्तु तत् ततो हलहला शब्दः प्रीतिदस्समजायत अस्तीकस्य वरे दत्ते तथैवोपरराम स यज्ञः पाण्डवे यस्य राज्ञः परीक्षितस्यः प्रीतिमांशाभवद्राजा भारतो जनमेजयः ऋत्विग्भ्यः स सदस्येभ्यो ये तत्रासं समागताः तेभ्यश्च प्रददौ तं शतशोथसहस्रशः लोहिताक्षाय सूताय तथा विभुः येनोक्तं तस्य तत्राग्रे सर्पसत्र निमित्तं ब्राह्मण इति तस्मै वित्तं ददौ दत्त्वा द्रव्यं यथा भोजनाच्छादनान्वितं प्रीतस्तस्मै नरपतिः अप्रमेयपराक्रमः ततश्चाकारवभृतम् विधिदृष्टेन कर्मणा आस्तिकं प्रेषयामास गृहानेव सुसंस्कृतं राजा प्रीतमनः प्रीतं कृतकृत्यमनीषिणं पुनरागमनं कार्यम् इति चैनं वचो ब्रवीत् भविष्यसि सदस्यो मे वाजिमेधे महाक्रतौ तथेत्युक्त्वा प्रदुद्राव तदास्ति को मुदा युतः कृत्वा स्वकार्यमतुलं तोषयित्वा च पार्थिवं स गत्वा परमप्रीतो मातुलं मातरं च ताम् अभिगम्योपसंगृह्य तथा